पञ्चशीतितमोऽध्यायः वैशम्पायन उवाच पौरवेणाथ वयसा ययातिर्नहुषात्मजः प्रीतियुक्तोऽनृपः श्रेष्ठश्च चारविषयान्प्रियान् यथा कामम् यथोत्साहम् यथा कालम् यथा सुखम् धर्माविरुद्धम् राजेन्द्र यथार्हति स एव देवानतर्प यद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् अतिथीनन्नपानैश्च विशश्च परिपालनैः अनुशंस्येन शूद्रांश्च दस्योंसन्निग्रहेण च धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ययातिः पालयामास साक्षादिन्द्र इवापरः स राजा सिंहविक्रान्तो युवाविषयगोचरः अविरोधेन धर्मस्य चचार सुखमुत्तमम् स सम्प्राप्य शुभान् कामान्स्तृप्तः खिन्नश्च पार्थिवः कालम् वर्ष सस्मारमनुजाधिपः परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् यौवनम् राजर्षिः सहस्रपरिवत्सरान् विश्वाच्यासहितो रेमे व्यभ्राजम् नन्दने वने अलकायाम् सकालम् तु मेरुश्रृङ्गे तथोत्तरे यदा स पश्यते कालम् धर्मात्मा तम् महीपतिः पूर्णम् मत्वा ततः कालम् पुत्रमुवाचः यथा कामम् यथोत्साहम् यथा कालमरिन्दम सेविता विषयाः पुत्र यौवनेन मया तव न जातु कामः कामानामुपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाधिवर्धते यत्पृथिव्याम् व्रीहियवम् हिरण्यम् पशवस्त्रियः एकस्यापि न पर्याप्तम्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 ब्रह्मण्याधाय मानसम् निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह पूरो प्रीतोऽस्मि भद्रम् ते राज्यं स्वयौवनम् राज्यम् चेदम् गृहाण त्वम् हि मे प्रियकृत्सुतः वैशम्पायन उवाच प्रतिपेदे जराम् राजा ययातिर्नाहुषस्तदा यौवनम् प्रतिपेदे च पूरुस्वम् पुनरात्मनः अभिषेक्तु कामम् नृपतिम् पूरुम् पुत्रम् कनीयसम् ब्राह्मणप्रमुखावर्णा इदम् वचनमब्रुवन् कथम् शुक्रस्य नप्तारम् देवयान्याः प्रभो ज्येष्ठम् यदुमतिक्रम्य राज्यम् पूर्वः प्रयच्छसि यदुर्ज्येष्ठस्तवसुतो जातस्तमनुतुर्वसुः शर्मिष्ठायासुतो सुतो द्रुह्यस्ततो नुः पूरुरेव च कथम् ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति एतत्सम्बोधयामस्त्वाम् धर्मम् त्वम् प्रतिपालय ययातिरुवाच ब्राह्मणप्रमुखावर्णाः सर्वे शृण्वन्तुमेवचः ज्येष्ठम् प्रति यथा राज्यम् न देयम् मे कथञ्चन मम ज्येष्ठेन यदुना नियोगो नानुपालितः प्रतिकूलः पितुर्यश्च न स पुत्रः सताम् मतः मातापित्रोर्वचनक्रुद्धितः पथ्यश्च यः सुतः स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु स्याख्या दुःखम् हि नरकम् विदुः पुतस्त पर आत्मन सदृश पुत्र पितृदेवर्षिजने गुणकरस सपुत्रो ज्येष जेश्थ उच्चते ज्येष्ठाशा स गुणकृद इहलोके पर्र शेन्पुत्रो गुणोपेत सपुत्रो नेतरो वृथ वदर्म्मा धर्म पितृण्पत्रा यदुनाहमवज्ञातस्तथातुर्वसुनापिच च द्रुहिणा चानुना वाक्यं मय्यवज्ञाकृता भृशम् पुरुणा तु कृतम् वाक्यम् मानितम् च विशेषतः कनीयान्ममदायादो धृता ये येन जरा मम मम कामः च कृतः पूरुणामित्ररूपिणा शुक्रेण पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः भवतोऽनुनयाम्येवम् पूरुराज्येऽभिषिञ्च्यताम् प्रकृतय ऊचुः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा सर्वमर्हति कल्याणम् कनीयानपि न वत्तुमुत्तरं वक्तुमुत्तरम् वैशम्पायनोवाच पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा अभ्यषिञ्चत्ततः पूर्वम् राज्ये स्वे सुतमात्मनः दत्त्वा पूरवे राज्यम् वनवासाय दीक्षितः पुरात्सनिर्ययौ राजा ब्राह्मणैः स्तापसैः योस्तु यादवाजास्तुसोवनाता दुह्योस्ुतास्त वै भोजा अनोस्तु छ जात पुरोस्ौरवो वंशो य इदं वर्ष सहस्राज्यम महाभारते आदिप्वि पूर्वयात सौ पंचाशीतितमोध्याय